तृतीयोऽध्यायः सौतिरुवाच जन्मेजयः पारीक्षितः सः भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रम् उपास्ते तस्य भ्रातरस्त्रः श्रुतसेन उग्रसेनो भीमसेन इति तेषु तत्सत्रमुपासीनेष्वागच्छत् सारमेयः स जन्मेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् तम् माता रोरूयमाणमुवाच <laughs> किं रोदिषि केनास्यभिहत इति स एवमुक्तो मातरम् प्रत्युवाच जनमेजयस्य भ्रातृभिरभिहतोऽस्मि तम् माता प्रत्युवाच व्यक्तम् त्वया तत्रापराद्धम् येनास्यभिहते इति स ताम् पुनर्वाच नापराध्यामि किञ्चिन्नावेक्ष्ये हविंषि नावलेह इति तत् श्रुत्वा तस्य माता सरमा पुत्र दुःखार्ता तत् सत्रमुपागच्छत्यत्र स जनमेजयस्सह भ्रातृभिर्दीर्घसत्रमुपास्ते स तया कृतया तत्रोक्तः अयम् मे पुत्रो न किञ्चिद् नावेक्ष्यते हविंषि नावलेहि किमर्थमभिहते इति न किञ्चिदुक्तवन्तस्ते सा तानुवाच यस्मात् अयम् अभिहतो अनपकारी तस्मादृष्टम् त्वाम् भयमागमिष्यतीति जनमेजय एवमुक्तो देवशून्यासमया भृशम् सम्भ्रान्तो विषन्नश्चासीत् स तस्मिन् सत्रे समाप्ते हास्तिनापुरम् प्रत्यय पुरोहितमनुरूपमन्विच्छमानः परम् यत्नमकरोत् यो मे पापकृत्याम् शमयेदिति स कदाचिन् मृगयाम् गतः कदा पारीक्षितो जनमेजयः कस्मिंश्चित् स्वविषय आश्रमम् तत्र कश्चित् चक्रे श्रुतश्रवा नाम तस्य तपस्य अभिरतः आस्ते सोमश्रवा नाम तस्य तम् पुत्रमभिगम्य जनमेजयः पारीक्षितः पौरोहित्याय वव्रे स नमस्कृत्य तम् ऋषिमुवाच भगवन् अयम् तव पुत्रो मम पुरोहितोऽस्विति स एवमुक्तः प्रत्यवाच जनमेदयम् भो जनमेदय पुत्रोऽयम् मम सप्याम् जातो महातपस्वी स्वाध्याय सम्पन्नो मत्तपो वीर सम्भृतो मच्छुक्रम् पीतवत्यास्त्यस्याः कुक्षौ जातः समर्थोऽयम् भवतः सर्वाः पाप कृत्याः शमयितुम् अन्तरेण महादेव कृत्याम् अस्य त्वेकमुपाम् सुव्रतम् यदेन कश्चिद् ब्राह्मणः कञ्चिदर्थमभियाचेत् तम् तस्मै तद्यादयम् यद्येतदुत्सहसे ततो न स्वयमिति तेनैव मुक्तो जनमे जयस्तम् प्रत्युवाच भगवंस्तत् तथा भविष्यतीति स तं पुरोहितमुपादायोपावृत्तो भ्रातॄन्वाच मयायम् वृत उपाध्यायो यदयम् ब्रूयात् तत्कार्यमविचार्यद्भिर्भवद्भिरिति तेनैव मुक्ता भ्रातरस्तस्य तथा चक्रुः स तथा भ्रातॄन् सन्दिश्य तक्षशिलाम् प्रत्यभिप्रत्यस्थे तञ्च देशं वशे स्थापयामास एतस्मिन्नन्तरे कश्चिद् ऋषिर्धौम्यो नाम शिष्यास्त्रयो बभूवः उपमन्युरारु स एकम् शिष्यमारुणिम् पाञ्चाल्यम् प्रेषयामास गच्छ केदारखण्डम् बधानेति स उपाध्यायेन सन्दिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत् केदारखण्डम् बद्धुम् नाशकत् स क्लिश्यमानोपश्यदुपायम् भवत्वेवम् करिष्यामि स तत्र संविवेश केदारखण्डे शयाने च तथा तस्मिंस्तदुदकम् तस्थौ ततः कदाचिदुपाध्याय आयोधो धौम्यः शिष्यानपृच्छत् क्व आरुणिः पाञ्चाल्यो इति ते तम् प्रत्युचुः प्रेषितो गच्छ केदारखण्डम् बधानेति स एवमुक्तस्तात् शिष्यान् प्रतिवाच तस्मात् तत्र सर्वे गच्छामो यत्र स गत इति स तत्र गत्वा तस्याह्वानाय शब्दम् चकार भो अरुणे पाञ्चाल्य क्वासि वत्सैः इति स तत् श्रुत्वा आरुणिः उपाध्याय वाक्यम् तस्मात् केदारखण्डात् सहसोत्थाय तम् उपाध्यायमुपतस्थे प्रोवाच चैनमयमस्म्यत्र केदारखण्डे निःसरमाणमदकमवारणीयम् संरोद्धुम् संविष्टो भगवच्छब्दम् श्रुत्वैव सहसा विदार्य केदारखण्डम् भवन्तमुपस्थितः तदभिवादये भगवन्तम् आज्ञापयत् भवान् कमर्थम् करवाणीति स एवमुक्त उपाध्यायः प्रत्युवाच यस्मात् भवान् केदारखण्डम् विदार्योद्धितः तस्मात् उद्दालक एव नाम्ना भवान् भविष्यति इति उपाध्यायेन अनुगृहीतः यस्माच्च त्वया मद्वचनमनुष्ठितम् तस्मात् श्रेयो वाप्स्यसि सर्वे च वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणि इति स एवमुक्त उपाध्यायेनेष्टम् देशम् जगाम अथापरः शिष्यस्तस्यैवायोधस्य धौम्यस्य उपमन्यो नाम तञ्चोपाध्यायः प्रेषयामास मत्सोपमन्यो गा रक्षस्वेति स उपाध्याय वचनात् अरक्षत् सचाहनिगारक्षित्वा दिवसक्षये निगारक्षित्वा दिवसक्षये गुरुगृहमागम्य उपाध्यायस्याग्रतः स्थित्वा नमश्चक्रिये तमुपाध्यायः पीवानमपश्यद्वाच चैनम् मत्सोपमन्यो केन वृत्तिम् कल्पयसि पीवानसि दृढमिति स उपाध्यायम् प्रत्युवाच भो भैक्ष्येण वृत्तिम् कल्पयामि इति तमुपाध्यायः प्रत्युवाच मय्यनिवेद्य भैक्ष्यम् नोपयोक्तव्यमिति स तथेत्युक्त्वा भैक्ष्यम् चलित्वा उपाध्यायम् न्यवेदयत् स तस्माद् उपाध्यायः सर्वमेव भैक्ष्यमगृह्णात् स तथेत्युक्त्वा पुनरक्षत् अहनि रक्षित्वा निशामुखे गुरुकुलमागम्य गुरोरग्रतस्थित्वा नमश्चक्रे तम् उपाध्यायस्तथापि पिवानमेव दृष्टो वाच वत्सोपमन्यो सर्वमशेषतस्ते भैक्ष्यम् गृह्णामि केनेदानीम् वृत्तिम् कल्पयसीति स एवमुक्त उपाध्यायम् प्रत्युवाच भगवते निवेद्य पूर्वमपरम् चलामि तेन वृत्तिम् कल्पयामि इति तमुपाध्यायः प्रत्युवाच नैषा न्याय्य गुरुवृत्तिरन्येषामपि भैक्ष्योपजीविनाम् वृत्युपरोधम् करोषि इत्येवम् वर्तमानो लुब्धोऽसीति स तथेत्युक्त्वा गा रक्षित्वा च पुनरुपाध्यायगृहमागम्य उपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच वत्सोपमन्यो अहं ते सर्वं भैक्ष्यम् गृह्णामि न चान्यच्छरसि पीवानस्य भृशं केन वृत्तिम् कल्पयसीति एवमुक्तस्तमुपाध्यायम् प्रतिवाच भो एतासां गवां पैसा वृत्तिम् कल्पयामिति तमुवाच उपाध्यायो नैतान्यायम् पय उपयोक्तुम् इति सत्तथेति प्रतिज्ञाय गारक्षित्वा पुनरुपाध्यायगृहमेत्य गुरोरग्रथस्थित्वा नमश्चक्रे तमुपाध्यायः पीवानमेव दृष्टो वाच वत्सोपमन्यो भैष्यं नाश्नसि न चान्यच्चरसि वयो न पिबसि पीवानसि भृशं खेनेदानीं वृत्तिं स एवमुक्त उपाध्यायम् प्रत्युवाच भोः फेनं पिबामि यमिमे वत्सा मातॄणां स्तनात् पिबन्त उद्गिरन्ति तमुपाध्यायः प्रत्युवाच एते त्वदनुकम्पया वत्साः प्रभूततरं फेनमुद्गिरन्ति तदेषामपि वत्सानां वृत्युपरोधं करोष्येवं वर्तमानः फेनमपि भवान् न पातुमर्हतीति स तथेति प्रतिश्रुत्य पुनरक्षत्काः तथा प्रतिषिद्धो भैक्ष्यम् नाश्नाति न चान्यच्चरति पयो पिबति फेनम् नोपयुङ्क्ते स कदाचिदरण्ये क्षुधार्थो अर्कपत्राण्यभक्षयत् स तैर् अर्कपत्रैर्भक्षितैः क्षारतिक्तकटुरुक्षैस्तीक्ष्णविपाकैः चक्षुष्युपहतोऽन्धो बभूव ततः सोऽन्धोऽपि चङ्क्रम्यमाण कूपेऽपपात अथ तस्मिन्ननागच्छति सूर्ये चास्ताचलावलम्बिनि उपाध्याय शिष्यान् अवोचत् नायात्युपमन्युस्त ऊचुर्वनम् गतो गा तानाः उपाध्यायोः मयोपमन्युः सर्वतः प्रतिषिद्धस्स नियतं कुपितस्ततो नागच्छति चिरं ततोऽन्वेष्य इत्येवमुक्त्वा शिष्यैः सार्धमरण्यं कत्वा तस्याह्वानाय शब्दं चकार भो उपमन्यो क्वासि वत्सैः इति स उपाध्यायवचनं श्रुत्वा प्रत्युवाचोच्चैः अयमस्मिन् कूपे पतितोऽहमिति तमुपाध्यायः प्रत्युवाच कथं त्वमस्मिन् कूपे पतित स उपाध्यायं प्रत्युवाच अर्कपत्राणि भक्षयित्वा अन्धीभूतोऽस्मि अतः कूपे पतित इति तमुपाध्यायः प्रथ्युवाच तौ देवभिषजौ त्वाम् चक्षुष्मन्तम् कर्ताराविति स एवमुक्त उपाध्यायेन उपमन्युरश्विनौ स्तोतुमुपचक्रमे देवाश्विनौ वाग्भिरुग्भिः प्रपूर्वगौ पूर्वजौ चित्रभानु गिरावाशंसामि तपसाः ह्यनन्तौ दिव्यौ सुपर्णौ विरजौ विमानावधि भुवनानि विश्वा हिरण्मयौ शकुनी साम्परायौ नासत्यदस्त्रौ सुनसौ वै जयन्तौ शुक्लम् तरसा सुबेमावधिव्ययन्त वसितम् विवस्वतः ग्रस्ताम् सुपर्णस्य बलेन वर्तिकाममुञ्चतामश्विनौ सौभगाय तावत् सुवृत्तावनमन्तमाययावसत्तमागा अरुणा उदावहन् षष्टिश्च गावस्त्रिशताश्च धेनव दुहन्ति नानागोष्ठा एकदोहनास्तावश्विनौ दुहतो धर्ममुख्यम् एकाम् सप्तशता अराश्रिताः प्रधिश्वन्या विंशतिरर्पिता अराः अनेमि मायाश्विनौ समनक्तिचर्षणी अश्विनाविन्दुमममृतम् वृत्तभूयौ तिरोधत्तामश्विनौ दासपत्नी हित्वा गिरिमश्विनौ गामुदाचरन्तौ तद्वष्टिमह्ना प्रस्थितौ बलस्य युवाम् दिशो जनयथो दशाग्रे समानम् मूर्तिनिरथयानम् वियन्ति तासाम् यातम् ऋषयोनुप्रयान्ति देवामनुष्याः क्षितिमाचरन्ति युवाम् वर्णान्विक्रुथो विश्वरूपांस्तेऽधिक्षीयन्ते भुवनानि तौ ना सत्यावश्विनौ वाम् महेहम् स्रजम् चयाम् बभृतः पुष्करस्य तौ नासत्यावमृतावृतावृतावृते देवास्तत्प्रपदे न सूते मुखेन गर्भम् लभेताम् युवानौ गतासुरे तत्प्रपदे न सूते सद्यो गुणैर्भवन्तौ चक्षुर्विहीनः पथि सम्प्रमोहः दुर्गेऽहमस्मिन् पतितोऽस्मि प्रपद्ये इत्येवम् तेनाभिष्टु ता वश्विना वाजग्मतुराहतश्च एनम् प्रीतौ स्व एष ते अपूपोषानैनमिति स एवमुक्तः प्रत्युवाच नत्वह न त्वहमेतमपूपमुपयोक्तुमुत्सहे गुरवे अनिवेद्येति